अथ रौद्रीकरणम् शिवाय नमः ॐ भोर्भुवस्सुवः ओम् अम् नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च विभुरसि प्रवाहणो रौद्रेणानिकेन पाहि माग्ने पिप्रीहि मामामा माहिगुंसीः अं भूर्भुवस्सुवरो शिखास्थाने रुद्राय नमः ॐ भूर्भुवस्सुवः ॐ आ नमः शम्भवे च मयोभवे च नमः च मयस्कराय च नमः शिवाय च शिवतराय च वह्निरसिहव्यवाहदोरौद्रेणाणीकेन पाहि माग्नेहि मा मामा मामाहि पुंसीः आ शिरस्थाने रुद्राय नमः म् भोर्भुवस्वः ॐ इं नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च स्वात्रोऽसि प्रचेतारौद्रेणानिकेन पाहि माहाग्ने पिप्रिहि मामा माहिंसीः इम् भूर्भुवस्सुवरो मूर्धस्थाने रुद्राय नमः ॐ भोर्भुवस्सुवः ॐ यी नमः शम्भवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवधराय च तुधोऽसि विश्ववेदारौद्रेणानिकेन पाहि माहाग्ने पिबिः माहि पुंसीः ईं भोर्भुवस्सुवरो लाटस्थाने रुद्राय नमः ॐ भूर्भुवस्सुवः ॐ उ नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च उशिगसि कबीरौ द्रेणाणीकेन पाहि माग्ने पिबिहि माहि पुंसीः भ्रूस्थाने रुद्राय नमः म् भोर्भुवस्सुवः ॐ नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च अङ्गारिरसिबम्भारी रौद्रे राणीकेण पाहि माग्नेपहि मामामाहि पुंसीः ऊ भूर्भुवस्सुवरो मुखस्थाणे रुद्राय नमः ॐ भूर्भुवस्सुवः ओम् ऋम् नमः शम्भवे च मयोभवे च नमः शङ्कराय च च नमः शिवाय च शिवतराय च अवसुरसिधुवस्वान् रौद्रेणाकेन पाहि माग्ने तिव्रिहि माहि पुंसीः ऋं भोर्भुवःसुवरो कण्ठस्थाने <kantastane> रुद्राय नमः ॐ भोर्भुवस्सुवः ॐ नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च सिन्धूरसिमार्जालीयो रौद्रेणानीकेन पाहि माहाग्नेहि मा माहि पुंसीः बाहुस्थाने रुद्राय नमः ओम् भोर्भुवस्सुवः ॐ लृम् नमः शम्भवे च च नमः शङ्कराय च नमः शिवाय च शिवतराय च सम्राटशिकृशानो रौद्रेणानिकेन पाहिमाहाग्नेभृहि मामाहि पुंसीः लिम् भूर्भुवस्सुवरो उरस्थाने रुद्राय नमः ॐ भूर्भुवस्सु महा ॐ नम शंभव च मोभव च नम शंकराय च चम शिवाय चिवतराय चरिषद्योशि पवम रौद्रेणीक पाई माग्ने मि पुंसी ली भोर्भुवस्सुवरो हृदयस्था ऋद्रा नम ओं भूर्भुवस्सु नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च पृथक्वासि नभस्वान् रौद्रेणाणीकेन पाहि माहाग्ने पिब्रिहि मामा नाभिस्थाने रुद्राय नमः ूर्भुवस्सुवः ॐ ऐ नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च असमृष्टो जहव्यसूदो रौद्रेणाणीकेन पाहि माः अग्ने पिप्रिहि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 भोर्भुवस्सुवरो ऊरुस्थाने रुद्राय नमः ओम् भोर्भुवस्सुवः ॐ औ नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवधराय च ब्रह्मज्योतिरशिसुवर्धामारौद्रेणानिकेन पाहि माहाग्ने माहिंसीः औ भूर्भुवस्सुवरो जानुस्थाने रुद्राय नमः ओम् भूर्भुवस्सुवः ओम् अम् नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवधराय च अजोऽस्येकपाद्रौ द्रेणानिकेन पाहिमाग्ने पिप्रिहि मा माहि पुंसीः अम् भोर्भुवस्सुवरोम् जङ्घास्थाने रुद्राय नमः ओम् भोर्भुवस्सुवः ओम् अहा नमः श्रम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च अहिसी बुद्धियों रौद्रेनाक आहा मे पिब्रि मा मि पुसी आह भूर्भुवसुव पादस्थाद्रा नम्वस्तिगतसपापुच्यतेभूते शवपराजिवती ततो भूत प्रेत पिशाच ब्रह्म राक्षसक्षयमदूत शाकिनी डाकि सर्पस्वापत वृश्चिकस्कराद्युपद्रवादुपघाताेजनम पश्यंत मक्ष यजम सहकुटुब रक्षन सर्वान्महाजना